वैशम्पायन येवं एवं विलपतीम् कुन्तीमभिवाद्य प्रणम्यच च पाण्डवा विगतानन्दावनायैव प्रव्रजुः विदुरश्चापि तामार्ताम् कुन्तीमाश्वास्य हेतुभिः प्रावेशयद्गृहम् क्षत्ता स्वयमार्ततरः शनैः ततः सम्प्रस्थिते तत्र धर्मराजे तदा नृपे जनाः समस्तास्तम् समारुरुहुरातुराः ततः प्रासादवर्याणि विमानशिखराणि च गोपुराणि च सर्वाणि वृक्षानन्यांश्च सर्वशः अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् न हि रथ्यास्ततः शक्या बहुजनाकुलाः आरुह्यते तान्यत्र दीनाः पश्यन्ति पाण्डवम् पदातिम् वर्जितच्छत्रम् चेलभूषणवर्जितम्